श्रीहरये नमः अतप्रयोदशोध्यायः श्रीशुक उवाचा निमियिष्वाकुतनयो वसिष्ठम् अवृतर्द्विजम् आरभ्य सत्रं सोप्याह शक्रेण प्राग्वृतोऽस्मि तं निर्वर्त्य आगमिष्यामि तावन् मां प्रतिपालय तूष्णीमासीद् गृहपति सोबीन्द्रस्य करोन्मखम् निमिश्चलमिदं विद्वान् सत्रमारभत आत्मवान् रुद्विग्भिरबरैस्तावन् नागमत्यावता गुरुः शिष्यव्यतिक्रमं वीक्ष्य निर्वर्त्य गुरुरागतः असपत्पतताद्देहो निमे पण्डितमानिनः निमिःप्रदिदौ सापं गुरवे धर्मवर्तिने तवापि पतताद्देहो लोभाधर्ममजानतः इत्युत्सससर्जस्वं देहं निमि अध्यात्मकोविदः मित्रावर्णयोर्जज्ञे उर्वश्यां प्रपितामघः गन्धवस्तुषु समाप्ते सत्प्रयागेत देवा नूचु समागतान् राज्ञो जीवतु देहोऽयं प्रसन्नाप्रभवो यदि तते निमिः प्राह माभून्मे भून्मे देहबन्धनं यस्य योगं न वाञ्छन्ति वियोगभयकातराः भजन्ति चरणाम्भोजं मुनयो हरिमेदसहा देहं नावरुरुरुत्सेहं दुःखशोकभयावहं सर्वत्रास्य यतो मृत्योर्मत्स्यानाम्बुदकेयथा देवावूचू विदेह उष्यतां कामं लोचनेषु शरीरिणाम् उन्मेषणनिमेषाभ्यां लक्षिदोत्यात्मसंस्थितः अराजगभयं नृणां मन्यमावामहर्षयः देहं ममन्तुस्मनि मे कुमारस्समजायत जन्मना जनकः सोऽभूत् वैदेहस्तु विदेहजहा मिथिलो मतनातो मिथिलायेन निर्मितं तस्मात् कुता पुत्रो भून्दिवर्धनः ततः सुखेतुस्तस्यापि देवरातो महीपते तस्माद्बृहद्र तस्तस्य महावीर्यशुद्रुत्पितां शुद्धृतेर्दृष्टकेतुर्वै हर्यस्वोतमरुस्ततः मरोः प्रतीपकस्तस्मात् जातकृतिरथो यतः देवमीडस्तस्य सुधो विश्रुतोतमहाधृतिः कृतिरातस्ततस्तस्मान् महारोमा अत तत्सुतः स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत सीताशीराग्रतो जात तस्मात् सीरध्वज स्मृतः कुशध्वजस्तस्य पुत्रस्ततो धर्मध्वजो नृपः धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमिध ध्वजौ कृतध्वजात् केशिध्वज आत्मविद्याविशारदः काण्डिज्ञकर्बतत्त्वज्ञो भीथ केचिद्वजादृतः भानुमांस्तस्य पुत्रोऽभूत् सधत्युम् नस्तु तत्सुतः शुचिस्तत्तनयस्तस्मात् सनद्वाजस्ततो भवत् ऊर्ध्वकेतुः सनद्वाजात् अजोतपुरुजित्सुतः अरिष्टनेमिस्तस्यापि श्रुतायुस्तत्सुपार्श्वकः ततश्चित्ररतो यस्य क्षेमधिर्मिदिलाधिपः तस्मात् समरतस्तस्य सुतः सत्यरतस्ततः आसीत् उभगुरुस्तस्मात् वस्वनन्तो तत्पुत्रो युयुधो यत् सुभाषणः श्रुतस्तेतो जयस्तस्मात् विजयोऽस्माद्धृतसूतः सुनकस्तत्सुतो जज्ञे पीतः व्यो धृतिस्ततः बहुला स्वोद्धृतिस्तस्य कृतिरस्य महावसि एते वै मैथिलाराजन् आत्मविद्याविशारदाः योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्वपि इति श्रीमद्भागवते महापुराणे नवमस्कन्दे निमिवं सानुवर्णनं नाम त्रयोदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथ महाराज की जय